हरि ओम् श्री सीता रामचन्द्रभ्य अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे श्री च सर्गः रावणप्रहीतानां गुप्तचराणां शार्दलस्य च तम्प्रति वानरसेनाया समाचारस्य बोधनं तत्रत्य प्रमुखवीराणां परिचरणञ्च ततः समक्षोभ्यबलम् लङ्काधिपतये चरः सुवेले राघवं शैले निवित्तम् प्रत्यवेदयन् चाराणाम् रावणः श्रुत्वा रामं रामम् ह बलम् दातोद्वेगो भवत् किञ्चित् शार्दूलम् वाक्यमब्रवीत् अयथा वचते वर्णो दीनश्चासि निशाचर नासि कश्चिदम् मित्राणाम् क्रुद्धानाम् वशमागतः इति तेनानुशिष्टस्तु वाचम् मन्दम् उदीरयन् शार्दूलो भयविक्लवः न ते चारयितुम् शक्या राजन् वानरपुङ्गवः विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः नापि सम्भाषितुम् शक्या श्नोऽत्र न लभ्यते सर्वतो रक्षते पन्था वानरे पर्वतोपमये प्रविष्टमात्रे ज्ञातोहम् बले तस्मिन् विचारिते बलागृहीतो रक्षोभिः बहुधास्मि विचारितः जानुभिः मुष्टिभिरन्ते तले चाभिहतो भृशम् परिणीतोऽस्मि हरिभिः बलमध्ये अमर्षणैः परिणीय च सर्वत्र नीतोऽहं रामसंसति रुधिरस्राविदीनाङ्गो विफल चलितेन्द्रियः हरिभिः वध्यमानश्च याचमानः कृताञ्जलिः राघवेण परित्रातो वामेति च यदृच्छय एष शैल शिलाभिस्तु पूरयित्वा हर्णवम् द्वारम् आश्रित्य लङ्काय रामस्य तिष्ठति सायुध व्यूहमासाय सर्वतो हरिभिवृतः मां विसृज्य महतेजा लङ्काम् देवाति वर्तते पुरा प्राकारमायाति क्षिप्रम् एकतरम् कुरु सीताम् वापि प्रयच्छासु शुद्धं वापि प्रदीयताम् मनसा तत्तदाप्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपये शार्दुलम् सुमद्वाक्यम् अथोवाच स रावणः यदि बां प्रतियुध्यन्ते देवगन्धर्व दानवः नैव सीतां प्रदास्यामि सर्वलोकभयादपि एवमुक्त्वा महतेज रावण पुनर्ब्रवीत् चरिताय भवता सेना केऽत्र शूराः प्लवङ्गमः किं प्रभा कीदृशा सोम्य वानरा ये दुरासुरः कस्य पुत्रा च पोत्रा च तत्त्वमाख्याहि राक्षस तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बलाबलम् अवश्यम् खलु कर्तव्यम् युद्धमिच्छत तथैव मुक्तः शादूलौ रावणेनोत्तमश्चरः इदं वचनम् आरेभिः वक्तुम् रावणसन्निधौ अथरिक्ष रजतपुत्र युधिराजन् सुदुर्जयः गद्गदयस्याथ पुत्रोऽत्र जाम्बवान्निति विचृतः गद्गदयस्याथ पुत्रोऽन्यो गुरुपुत्र शतकृत कदनं यस्य पुत्रेण कृतम्बे केन रक्षतां सुषेण चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवन् सौम्य सोमात्मज चात्र राजन्द्रधिमुखकपि सुमुख दुर्मुख चात्र वेगदर्शी च वानर मृत्युर्वानररूपेण नूनं सृष्टः स्वयं भुवः पुत्र हुतव्यस्यात्र नील सेनापतिः स्वयम् अनिलस्य तु पुत्रोऽत्र हनुमनिति विश्रुतः नत्ताशक्रश्च बलवान् अङ्गदो युव मन्दश्च द्विदश्चो भव पुत्रा वै पंचे कालांतकोपमह गजोगवाक्षो गवय शरभोगन्धमादनः दश वा नरकोट्यश्च शूराणाम् युद्धकाङ्क्षिणाम् श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे पुत्रो दश रसत्यैष सिंहसं हननो ी शिरासथाय नास्ति रामस्य सदृशे विक्रमे भुवि विराधो निहतो येन कबन्धे चान्तकोपमः वक्तुं रामस्य गुणान् कश्चिन्न रक्षित जनस्थान गता येन तावन्तो राक्षसा हताय धर्मात्मा मातङ्गानां विवर्षभ यस्य बाणपथं प्राप्य न जीवेदपि वासवः श्वेतो ज्योतिर्मुखश्चात्रे भास्करस्यात्मसम्भवो वरुणस्याथ पुत्रोऽथ हेम कूट प्रवङ्गमः वीरो नलप्लवगसत्तमः विक्रान्तो वेगवान् अत्र वसुपुत्रः सदुर्धरः राक्षसानाम् वरिष्ठश्च तव भ्राता विभीषणः प्रतिगृह्य पुरीम् लङ्काम् हिते रतः इति सर्वं समाख्यातम् तथा वै सुवेले सुवैलेधिष्ठितं चैले शेषकार्ये इत्यार्थे श्रीमद् रामायणे वाल्मीकि आदिकाव्ये युद्धकाण्डे त्रिंश सर्गः श्रीसीतारामचन्द्रारभणमस्तु